नारायणीयं दशकं तर्टि मीटर मीटर् पृथ्वी भवन्दमयमुद्वहन्यदुकुलोद्वहो निःसरन् ददर्शगगनोच्चलज्जलभरां कलिन्दात्मजाम् अहो सलिलसञ्चय स पुनरैन्द्रजालोदितो जलौक इव तत्क्षणात् प्रमदमे यदा मायौ प्रसुप्तपशुपालिकां निभृतमारुदद्बालिकामपावृतकवाडिकां पशुपवाडिकामाविशन् भवन्तमयमर्पयन् प्रसवतल्पके तत्पदाद्वहन् कपडकन्यकां स्वपुरमागदो वेगदः तदस्त्वदनुजारवक्षपिदनिद्र वेगद्रवद्भडोत्कर निवेदितप्रसववार्तयैवार्तिमान् विमुक्त चिकुरोत्करस्त्वरितमापदन् भोजराडतुष्ट इव दृष्टवान् भगिनिकाकरे कन्यकाम् ध्रुवं कपडशालिनो मधुहरस्य माया भवेदसाविधि किशोरिका भगिनीका करालिङ्गिताम् द्विपो नलिनिकान्दरादिवमृणालिकामाक्षिपन्नयं त्वदनुजा मजा मजामुपलपट्टके पिष्टवान् तदो भवदुपासको छटिति मृत्युपाशादिव प्रमुच्यतरसैव सा समधिरूढरूपान्तरा अधस्तलमजग्मुषी विकसदष्टबाहुस्फुरन्महायुधमहोगदा किल विहाय सा दिद्युदे नृशंसतरकं किमुमया विनिष्पिष्टया बभूव भवदन्तकक्वचन चिन्त्यदां ते हि तम् इति त्वदनुजा विभो फलमुदीर्य तं जग्मुषी मरुद्गणपणायिदा प्रगे पुनरगात्मजा वचनमीरिदा भुभुजा प्रलम्बभगपुधना प्रमुखदानवा मानिनः भवन्निधनकाम्यया जगदि बभ्रमुर्निर्भया कुमारक विमारका किमिव दुष्करं निष्कृपैः तदपशुभमन्दिरे त्वयि मुकुन्दनन्दप्रिया प्रसूदि शयने शये हृददि किञ्चिदञ्चत्पदे विबुध्यवनिदा जनैस्तनयसम्भवे कोषिते मुदा किमुवदाम्याहो वदाम्यहो सकलमाकुलं गोकुलम् अहो खलु यशोदय नवकलाय चेदोहरं भवन्तमलमन्दिके प्रथम मापि बन्द्यादृशा पुनस्तनभरं निजं सपदि पाययन्द्या मुदा मनोहरस्तनुस्पृश्य जगदि पुण्यवन्दो जिताः भवत्कुशलकाम्यया स खलु नन्दगोपस्तदा प्रमोदभरसङ्गुलोद्विजकुलाय किं नाददाद तथैव पशुपालका किमु न मङ्गलं ते निरे जगत् हृदयमङ्गलत्वमिह पाहि मामामयाद सर्वत्र गोविन्दनामसङ्कीर्तनं गोविन्द गोविन्द